मुग्गलपुराणं खण्डं 6 विकटचरितम् अध्यायं वन् शक्तिध्यानवर्णनम् श्रीगणेशाय नमः शौनक उवाच सुदत्वया महाप्राज्ञकथितं परमाद्भुतं लम्बोदरस्य माहात्म्यं तेनाहं तृप्तिमागतः अहो गणेशमाहात्म्यं सर्वसन्तोषकारकं श्रवणेनैव साक्षात्तु ब्रह्म सायुज्यदायकम् अधुनावदमाहात्म्यं विकटस्य विशेषविद सर्वसिद्धिप्रदं पूर्णं सूद योगामृदं परम् अन्यन्मुद्गलविप्रेण दक्षाय कथितं पुरा पृष्ठं दक्षेण किं ताद वद तन्मे प्रविस्तराद तव सङ्गेन सन्तुष्टा वयं सर्वे विशेषतः भवामकृदकृत्याश्च कथाश्रवणमात्रदः सूद उवाच सम्यक् पृष्टं त्वया विप्रभार्गवाणां शिरोमणि सारग्राही न सन्देहशौनकत्वं भवतां प्रीतिकामार्थं वदिष्यामि विशेषदः चरितं गणनाथस्य ब्रह्मभूतपदप्रदं न गणेशात्परं किञ्चिद्विद्यते वेदवाददः अल्पपुण्ययुधानां तु न प्रीतिस्तत्र महायोगी योगं दक्षेण वीप्सदा तदेवाकं वदिष्यामि शृणुद ब्राह्मणाः परं दक्ष उवाच धन्यं मे जन्मकर्मादि येन दर्शनं प्रभो प्राप्तं पुण्यवशेनैव परं अधुना वदमाहात्म्यं विकटस्य विचक्षण श्रुत्वा लम्बोदरस्यैव तृष्णामे वर्धदे मुने कीदृशोयं गणाध्यक्षकीदृशं ब्रह्म तस्य वै केन योगेन लभ्यश्च कदि तस्यावतारकाः किम् विहार किमर्थं स भूमौ देवः समागतः कान्दैत्यान् हदवान् विप्रकथं देवैश्च संस्तुतः इत्यादिविधं तस्य चेष्टिदं वदमानद भवादृशा महाभागाः परोपकृतिकारकाः संसाराब्धौ निमग्नानां नौकारूपामदाबुधैः भवन्तो नात्र सन्देहस्तारयस्वधुना च मां उवाच दक्ष सेन भेन तोयु मुद्दलवाच परुसौख्यद मुद्द उवाच धन्योशिद गणनाधक मुहु प्रश्नेन भक्ति संयुक्तों वर्धयसि सुसार विद साक्षाद्ब्रह्मसुधस्तत्र चित्रं किं भवति त्वयि भावेन ते प्रसन्नोऽहं वदिष्यामि हितावहं विकटस्य च माहात्म्यं समासदः अत्रेतिहां मुख्यमं वै विधे शृणुपुरा भव कथया विचि ते विकटाख्याुद आदि मया शोक शक्ति निराम संस्था सव्यम दीस्सेराे कदा पूजने शक्ता नियमस्तां विशेषतः गणेशानस्यतां दृष्ट्वा पप्रच्छुशक्तयः पराः महाकाली प्रजानाथ महालक्ष्मी च महासरस्वती देव्योन्याश्च नानाविधा महाकाली महालक्ष्मी महा सरस्वतुपासी जगदब्रह्मदीय ध्यान ब्रह्मूदा धर्मा कामोक्षाण धात्री कथिता बुध वेदेशु सर्वशक्तीनां मूलभूतात्वमञ्जसा ब्रह्मविष्णुशिवाद्याश्च त्वदनुष्ठानतः सति ईश्वराः सर्वकार्येषु समर्थाः प्रबभूविरे कर्मणां फलदातृत्वं तपःसां ज्ञानधारिणाम् त्वत्तः परतरं नास्ति वेदशास्त्रप्रमाणतः त्वं नित्यं नियमे संस्था गणेशं मूर्तिगं परं ध्यानयुक्ता पूजयसि तं ध्यायसि किमर्थदः सदा नामावलिं तस्य वदसि जगदम्बिके भ्रमार्थं सर्वजन्तूनां गुह्य गोपनकारणात् सर्वसत्ताधरी देवी त्वमेवात्र अस्मान् संशयः अस्मान्मोहयुधान्शक्रे किमर्थं कुरुषेवद लज्जां त्यक्त्वा त्वदीयाश्चाधुना पृच्छामहे वयम् नित्यं दृष्ट्वा प्रसंक्षुब्धा भवामः परमाद्भुते दास्यस्त्वदीयपादस्य नान्यत्वत्तः परं कदा वेदमार्गेण सर्वे जानीमो वदसाम्प्रतं मुद्गल उवाच सृभिशक्तिमुख्याभिपृष्टा सा शक्तिरुत्तमा स्नेहेनता जगादाध रहस्यम् शृणुमुख्यकम् आदिशक्रिरुवाच शृणुध्वम् शक्तयः सर्वा रहस्यं मे हृधि स्थितम् सर्वसिद्धिप्रदम् पूर्णम् त्रय्याद्याः परमाद्भुतम् यथावदध कल्याणस्तथाहं सर्वगायतः गणेशस्यांशरूपत्वात् गणभावसमाश्रिता पुरा वयं समुत्पन्नाश्चत्वारो देवमुख्यताः शम्भुर्विष्णुरविर्देव्यो गणेशानादहं किल नाम रूपात्मकं सर्वं मत्तो ब्रह्म भवात्मकं तत्राकं ब्रह्म संस्थिता नात्र संशयः नाम रूपात्मकस्यापि नाश्योत्पत्तिप्रकीर्तिते तत्र स्थितमदो ब्रह्मा सत्स्वानन्दमयं मदम् उत्पत्ति नाशभूदेषु तदाधारम् सदात्मगम् सूर्यस्तदेव देव्यस्तु ब्रह्म सत्यात्मगम् परम् असत्सन्मयरूपश्च विष्णुः साम्येव्यवस्थितः निधिरूप शिवस्तत्र च दुग्धः कथ्यते परः चतुर्नां चैव संयोगे स्वानन्दः पञ्चमस्मृतः स्वसंवेद्येन योगेन लभ्यदे योगसेवया अयोगः पञ्चभिर्हीनो व्यतिरेकप्रभावदः संयोगयोगयोर्योगे गणेशो योग उच्यते पञ्चथा चित्तवृत्तीनां चालकस्तेन कथ्यते चिन्तामणिः सदा देव्यः पश्यध्वं योगमार्गदः मायारूपा स्वयं सिद्धिर्भ्रान्दिदा विविधा सदा भ्रान्तिधारकरूपा सा बुद्धिशास्त्रेषु पद्यते तयो स्वामी गणेशानस्वानन्दनगरे स्थितः योगशान्तिमयसाक्षाल्लक्षलाभपिता हृदि संयोगश्च गकारक्यो ह्ययोगश्च नकारकः यो तयोस्वामी गणाधीशं वयं तस्य फलात्मिकाः अधस्तं भक्तिसंयुक्ता भजाम्यत्र न संशयः न मोहार्तं महादेव्यो गुह्यं गोपयितुं च न एतत् सर्वं समाख्यादम् अधीयनियमात्मकं चित्ते चिन्तामणिं देव्योऽध्यायामि भक्तिसंयुता कममोहिदचित्तानां न नप्रत्यक्षो गजाननः भवदे भावहीनानां भजदामपि सर्वदा अज्ञानावरणोक्ता मां वदन्ति परात्परां गणास्तस्य वयं सर्वे शम्भु शम्भुविष्णुमुखा किल गजो निर्गुणरूपाख्यस्तदेवाननमुच्यते कण्ठाधः स गुणं ब्रह्म तयोर्योगे स देहभृत इत्युक्त्वा शक्तिस्वानन्दवासिनी असत्पात्री प्रजानाथ प्रजाथ विस्मतास्ता बभूवि ओं तत्सति मे पुराणोपनिषद्रीमन्म उद्गले महापुराणे विकट चरिदे, शक्ति ध्यान वर्णन नाम प्रथमोध्या ओं